वनम् गते धर्मराजे दुःखशोकपरायणाः बभूवुः कौरवा वृद्धा हृशं शोकेन पीडिताः ततः पौरजनः सर्वशोचन्नास्ते जनाधिपम् कुर्वाणाश्च कथास्तत्र ब्राह्मणाः पार्थिवम् प्रति ब्राह्मणा ऊचुः कथम् राजा धर्मात्मा वनेवसति वसति निर्जने तस्यानुजाश्च ते नित्यम् कृष्णा च द्रुपदात्मजा सुखार्हापि च दुःखार्ता कथम् वसति सावने विदुर उवाच एवम् पौराश्च विप्राश्च सदाराः सह पुत्रकाः स्मरन्तः पाण्डवान् सर्वे बभूवुर्भृशदुःखिताः आविद्धा इव शस्त्रेण न भ्यनन्दन् कथञ्चन सम्भाष्यमाणा अपि ते प्रत्यपूजयन् न भुक्त्वा न शयित्वा शोकोपहत विज्ञा नष्टज्ञा इवाभव यदा बोवायोध्या नगरी पुरानते दुखा धृतराज्ये स लक्ष्मणे तदवस्थं बूवाद गते पार्थे वनम् दुःखाद्धृतराज्ये सहानुजैः वैशम्पायन उवाच विदुरस्य वच श्रुत्वा नागरस्य गिरम् वै भूयो मुमोहशोकाच्च धृतराष्ट्रः स ततो दुर्योधनः कर्णः शकुनिश्चापि सौबलः द्रोणन् द्वीपमन्यन्त राज्यम् चास्मै न्यवेदयन्